हरिओं जीताचंद्रभ्या अथ श्रीमद्वामीकेमण युद्धकांडे पंचष्टी तम सर्ग कुंभकर कुंभकर्णस्थयात्रा स तथोक्ता कुंभकर्णो महोदर अब्रवीद राेषं भ्रातरम रावण तत सोहम तब भय घोर वधातस्य दुरात्मनः रामस्याद् प्रमाजामि निर्वैरोहि सुखी भव गर्जन्ति न वृथा निर्जला इवतो तु पश्य सम्पद्यमानं तु गर्जितं युधि कर्मणा न मर्शयन्ति चात्मानं सम्भावयितुमात्मना अदर्शयित्वा चूरातु कर्मा कुर्वन्ति दुष्करम् विक्लवानाम् ह्य बुद्धीनाम् राज्ञाम् पण्डितमानिनाम् रोचते त्वद्वचो नित्यम् कथ्यमानम् महोदर युद्धे का नित्यं। नित्यम् भवद्भिः प्रियवादिभिः राजानम् अनुगच्छद्भिः सर्वम् कृत्यम् विनाशितम् राजशेषा कृतालङ्कार ीणः कोशोऽवलम्भतम् राजानम् इममासाद्य सुरचिह्नम् ममित्रकम् एष निर्याम्यम् युद्धम् उद्यतश्चत्रुनिर्जये दुर्नयम् भवताम् अद्य समीकर्तुम् आहवे एवम् उक्तवतो वाक्यम् कुम्भकर्णस्य धीमतः पत्युवाच ततो वाक्यम् प्रहसं राक्षसाधिपहे महादरोऽयं रामातु परित्रस्थो न संशयहे न हि रोचते युद्धं युद्ध विशारदे कश्चिन्मे तत्समो नास्ति सौरुधेन बलेन च गच्छ शत्रुवधाय त्वम् कुम्भकर्ण जयाय च शयानशत्रुनाशार्थम् भवान् सम्बोधितो मया अन्यम् हि सुमान् राक्षसानां राक्षसानाम् मरिन्दम सङ्गच्छ शूलमानाय पाशः सैवन्तकः वानरान् राजपुत्रौ च भक्षया दित्यतेजसौ समालोक्य तु ते रूपम् विद्रविष्यन्ति वानरः रामलक्ष्मणयो चापि हृदय प्रस्फुट्यवेज कुंभकर्णबर्जात्म वैन राशस पुंगव कुंभकर्ण बलाौ जान तराक्रम बहूव मुदि राज शक निर्मल संवृत् निर्जगाम महाबलः राज्ञस्तु वचनम् श्रुत्वा योद्धुमुद्युक्तवान् तदा आददे निशितम् शूलम् वेगाचतुर्निबर्हणः सर्वम् कालाय सम् दीप्तम् तप्त काञ्चन भूषणम् वज्रप्रतिमगौरवम् देव दानव यक्षपन्नगसूदनम् रक्तमाल्य महारामम् स्वदशोद्गतपावकम् आदाय विपुरम् शूलम् शत्रु कुम्भकर्णो महातेजा रावणम् वाक्यम् अब्रवीत् गमिष्याम्यहमेकाकी त्रिचत्रीर बलम् अव अद्य ता भक्षयिष्यामि वा नरम् कुम्भकर्णव च श्रुत्वा रावणो वाक्यमब्रवीत् संज्ञे परिवृतो गच्छा हि महात्मान शूरासु व्यवसायिनः एकाकिनं प्रमत्तं वा नयूर्दर्शनैक्षयम् तस्मात् परम सैन्ये परिवृतो व्रज रक्षसाम् अहितम् सर्वम् शत्रुपक्षम् निशोदय अथासनाथ समुत्पत्य स्रजम् माणीकृतान्तराम् आबन्ध महातेजा कुम्भकर्णस्य रावणः अङ्गदान्यङ्गुलिवेष्टाम् वराण्याभरणानि च हारञ्च शशिसङ्काशम् आबबन्ध महात्मनः दिव्यानि च सुगन्धिनि माल्यदामानि रावणः गात्रेषु सज्जयामास रुत्रयो चास्य कुण्डले काञ्चनाङ्गदकेयुर् निष्काभरणभूषितः कुम्भकर्णो बृहत्कर्ण सुहृतोऽग्ने वा बभो क्रोणीसूत्रेण मतः नैतकेन व्यराजत् अमृतोत्पादनेन धू भुजङ्गेनैव मन्दरकानम् भारसहम् निवतम् विद्युत्प्रभम् निवातम् आत्मभासा आवध्यमान कवचङ्गराज सन्ध्याभ्रसं वीत इव द्विराज सर्वाभरण सर्वाङ्ग शूलपाणी स राक्षस है नारायण भ्तरम तम पिछ्य कृवा चापी प्रदक्षिण प्रणम्य शिषा तस्म प्रतस्थे स महाबल तमाशीर्भ प्रशस्ता प्रेशयामास रावण शंख दुंदुर्घोष सैन्यै चापि वरायुधै तं गजै च तुरङ्गै च चन्दनैः चाम्बुसनै अनुजग्मोर्महात्मानो रथीनो रथीनां वरम् सर्पैरुष्टैः खरैश्चैव सिंहद्वीपमृगद्विजये अनुजग्मो च तं घोरम् स्वपुष्पवर्षेरवकीर्यमाणो धृतापपत्रशितशूलपाणि मदुत्कट शोणितगन्धमत्तो विनिर्ययो दानवदेव शत्रु पदातय च बहवो महानादा रक्ताक्षासु बहुव्यामा नीलाञ्जन च योपमः शूलानुद्यम्य खड्गा च निशीताश्च परश्वधान् भिन्दे पालाश्च गदाश्च मुसलानि च तालस्कन्धां च विपुलान् क्षेपणीयान् दुरासदाम् दारुणं घोर दर्शनं निष्पपातय महातेजा कुम्भकर्णो महाबलः धनुषत परिणहै स षटत समुच्छ्रितः रोद्र शकट चक्राक्षो महापार्वत सन्निभे प्रसन्निदमब्रवीत् अद्य वानर मुख्यानां तानि यूथानि भाग च निर्दयिष्यामि संक्रुद्ध पतङ्गान्निव पावकः पुरोधस्य मूलम् तु राघव सः लक्ष्मणः हते तस्मिन् हतम् सर्वम् तम् वधीष्यामि संयोगे एवम् तस्य ब्रवर्णस्य कुम्भकर्णस्य राक्षसाः नदम् चक्रुर्महाघोरम् कम्पयन्त इवार्णवम् तस्य निष्पततस्तूर्णम् कुम्भकर्णस्य धीमतः बहुघोररूपाणि निमित्तानि समन्ततः उल्काशनीयुतामेघ बहूर्गर्दभरुण ससागरवना चैव वसुधा समकम्पत घोररूपा शिवा नेदु सज्ज्वालकवलमुखै मण्डलान्य पवस् मंडला न्यपव्या च चु शूले वी पथि गयन चा सव्यो बाहूरकंपद निष्पात तदा चोल का झरती भीम आदि निष्प्र चासी नवाति चुखो अचिन्तयन् भवत्पातान् उदितान् रोमहर्षणान् निर्ययौ कुम्भकर्णस्तु कृतान्तरचोदितः स लङ्घयित्वा प्राकारम् पद्भ्यां पर्वत सन्निभ ददर्शाभ्रघनप्रक्षम् वानरनेकमद्भुतं ते दृष्ट्वा राक्षसश्रेष्ठम् वानरः पर्वतोपमम् वायुनुन्ना इव घना ययु सर्वा दिशस्तदाय तद्वानरानेकमपि प्रचण्डम् दिशो द्रवद्भिन्नमिमाभ्रजालम् स्वकुम्भकर्णसमवेक्षान् न नाद भूयो घनवञ्जनाभे ते तस्य निशम्य यथा निनादं द्विवारिदस्य पेतुर्धरण्याम्भव प्रभङ्ग निकृत्तमूलाय वशालवृक्षाय विपुल परिभवान् स कुम्भकर्णो त्रिपुनजनाय विनि श्रृतो मात्मा कपिगणभयमादद सुभीमम् प्रभुरिव किङ्कर दण्डवान् श्रीसीतारामचन्द्र प्रणमस्तु